एनावद् दशकम् पौण्ड्रगपथम् रामेत गोकुलगते प्रमदा प्रसक्ते हूतानुवेत यमुनादमने मदान्दे स्वैरम् समारमति सेवकवादमूढो दूतं ययुङ्क्त तव पौण्ड्रकवासुदेव नारायणोऽहमवतीर्णयिहास्मि भूमौ दत्से किल त्वमभिमामकलक्षणानि उद्धृज्यतानि शरणम् व्रजमामिति त्वाम् दूतो जगादसकलैर्कसितः सभायाम् दूतेतयातवति यादवसैनिकस्त्वम् यादो ददर्शितवपो किल पौण्ड्रकीयम् तापेन वक्षसि कृदाङ्कमनल्पमूल्य कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण शीर्षम् सकर्तितममर्दितचास्यसेन तन्मित् प्रकाशिबिरोऽपि स कर्तकाश्याम् जाट्येन बालकगिराभिखिलाहमेव श्रीवासुदेव इति रूढमतिश्चिरम् स सायुज्यमेव भवदैक्यधियागतोऽभूत् को नामकस्य सुकृतः कथमित्यवेयात् काशीश्वरस्य तनयोत सुदक्षिणाख्य सर्वं प्रबूच्य भवते विहिताभिषार कृत्यानलम् कमबिबाणरणातिभीते भूतैकथञ्चन वृतै सममभ्यमुञ्च तालप्रमाणचरणामखिलम् दसन्ति कृद्याम् विलोक्यचकितै कथितोऽपि पौरये द्यूत्तोत्सवेकमपि नो चलितो विभो त्वम् पार्श्वस्तमासु अप्यापतत्यमितधाम्नि भवन्मस्त्रे हाहेति विद्रुतवती खलु गोरकृत्या रोषात् सुदक्षिणमदक्षिणचेष्टितम् तम् पुप्लोषचक्रमपि काशिपुरी मदाक्षी स खलु विविदो रक्षो गाते कृतोपकृति भवतु कलयामृत्युम् प्राप्तुम् तदा कलताम् गता नरगस शिवो देश क्लेशं सृजन्न करा के झटि हलिना अद्दापातलाहता शांब कौरव्यपुत्रे हरणन सा यातस्तत्त्वाक्यरोक्षो द्रतकरि न गरो मोचयामास रामा ते गाज्ञा पाण्डवे यै रितियतु पृदनाम् नामुचस्त्वम् तदानीम् तम् त्वाम् दुर्भोतलीलम् पवनपुरपते तापशान्त्यै निषेवे भजगोविन्दम् भज गोविम् गोविन्दम् भज मोटमते